सप्त पञ्चाशदधिकशततमोऽध्यायः ब्राह्मण्युवा च न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् न हि सन्तापकालोऽयम् वैद्यस्य तव विद्यते अवश्यम् निधनम् सर्वैर्गन्तव्यमिह मानवैः अवश्यम् भाविन्यर्थे वै सन्तापोऽनेह विद्यते भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते यथाम् जहिसुबुद्ध्या त्वम् स्वयम् ज्ञास्यामि एतद्धि परमम् नार्याः कार्यम् लोके सनातनम् प्राणानपि परित्यज्य यद्भर्तुहितमाचरेत् तच्च तत्र कृतम् कर्म तवापीदम् सुखावहम् भवत्यमुत्र चाक्षय्यम् लोकेऽस्मिंश्च यशस्करम् एष चैव तव अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते यदर्थमिष्यते भार्या प्राप्तस्सोऽर्धस्त्वया मयि कन्या चैकाकुमारश्च समर्थः पोषणे रक्षणे तथा न त्वहम् शक्ता तथा रक्षण पोषणे मम हि त्वद्विहीनायाः सुतौ बालो भरेयम् च कथम् त्वहम् कथम् हि विधवानाथा बालपुत्रा विनात्वया त्वया मिथुनम् जीवयिष्यामि स्थिता साधुकते पथि अहम् कृतावलिप्तैश्च प्रार्थ्यमानामि माम् सुताम् अयुक्तैस्तव शक्ष्यामि रक्षितुम् उत्सृष्टमामि शम्भूमौ प्रार्थयन्ति यथा खगाः प्रार्थयन्ति जनाः सर्वे पतिहीनाम् तथा स्त्रियम् साहम् विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः स्थातुम् पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम तव कुलस्यैकामि माम् बालामनागसम् पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे कथम् शक्ष्यामि बालेऽस्मिन् गुणानाधातुमीप्सिताम् अनाथे सर्वतो लुक्ते यथात्वं धर्मदर्शिवान। धर्म दर्शिवान् इमामपि च ते बालामनाथाम् परिभूय माम् अनर्हाः शूद्रा वेद श्रुतिम् यथा ताम् चेदहम् न दित्सेयम् त्वद्गुणैरुप बृंहिताम् प्रमथ्यैनाम् हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् सम्प्रेक्षमाणा पुत्रम् ते नानुरूपमिवात्मनः अनर्हवशमापन्नामिमाम् चापि सुताम् तव अवज्ञाता च लोकेषु तथात्मानमजानति अवलिप्तैर्नरैर्ब्रह्मन् मरिष्यामि न संशयः तौ च हीनौ मया बालौ त्वया चैव तथात्मजौ विनश्येताम् न सन्देहो मत्स्याविवजलक्ष्ये त्रितयम् सर्वथाप्येवम् विनशिष्यत्य संशयम् त्वया विहीनम् तस्मात् त्वम् माम् परित्यक्तुमर्हसि व्युष्टिरेषा परा स्त्रीणाम् भर्तुः पराम् गतिम् गन्तुम् ब्रह्मन् स धर्मविदो विदुः मितम् ददाति हि पिता मितम् मातामितम् सुतः अमितस्य हिदातारम् का पतिम् नाभिनन्दति दुहितेयम् तथा मया बान्धवाश्च परित्यक्तास्तदर्थम् जीवितम् च मे यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा विशिष्यते स्त्रिया भर्तुर्नित्यम् प्रियहिते स्थिते तदिदम् यच्चिकीर्ष्यामि धर्मम् परम सम्मतम् चैव तव चैव कुलस्य च इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः आपद्धर्म प्रमोक्षाय भार्या चापि सताम् आपदर्थे धनम् रक्षेद्दारान् रक्षेद्धनैरपि आत्मानम् सततम् रक्षेद्दारैरपि धनैरपि दृष्टाद्दृष्ट फलार्थम् हि भार्या पुत्रो धनम् गृहम् सर्वमेतद्विधातव्यम् बुधा निश्चयः एकतो वाकुलम् कृत्स्नमात्मा वाकुलवर्धनः सर्वमेवेति बुधा निश्चयः स कुरुष्व मया कार्यम् तारयात्मानमात्मना अनुजानीहि मामामार्य सुतौ मे परिपालय अवध्याम् स्त्रियमित्याहुर्धर्म ज्ञा धर्म निश्चये धर्म ज्ञान् राक्षसानाहुर्न हन्यात् स च मामपि निःसंशयम् अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि भुक्तम् प्रियाण्यवाप्तानि धर्मश्च महान् त्वत्प्रसूतिः प्रिया प्राप्ता न जातपुत्रा च वृद्धा च प्रिय च ते सदा समीक्ष्यैतदहम् सर्वम् व्यवसायम् करोम्यतः उत्सृज्यापि हिमामार्य प्राप्स्य अन्यामपि धर्मो भविष्यति पुनस्तव न चाप्यधर्मः कल्याण बहुपत्नी लङ्घने एतत् सर्वम् गर्हितम् आत्मान तारशुकुल चेमौ चारक वैशंपायन उवाच एव मुक्त भर्ता सिंग्य भारत मुमोच बाष्पमं शनक्यो भृश दुखित्री महाभारते आदिपर्वि बकवर्वि ब्राह्मणी वाक्ये सप्तद शत